10 वर्धिद बलोध दंभो जयो टेन मीटर् वसंदतिलकं वैकुंठवर्धित प्रसादंभसृज जीवदेहाूरूहमी ताधा तिरश्चाञ्जातिर्मनुष्य निवहानपि देव भेदान् मिथ्याग्रहास्मि मदिराग विको बीधिरज्ञानवृत्तिमिति पञ्चविधांसृष्ट्वा उद्धामतामसपदार्थविधानदूनस्तेने त्वदीयचरणस्मरणं विशुद्ध्यै mm. तावत् स सर्जमनसा सनकं सनन्दं भूयः सनातनमुनिञ्च सनत्कुमारं ते सृष्टिकर्मणि तु तेन नियुज्यमानास्तोत्पादभक्तिरसिका जगृहूर्नवाणी तावत् प्रकोपमुदिदं प्रतिरुन्ध स्य भ्रूमभ्यदो जनिमृडो भवदेकदेशः नामानि मे कुरुपदानि चहा विरिञ्जेत्या दौरुरोद किल तेन स रुद्रनामा एका दशाह्वयदत्या च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च ता दत्त्वा तावन्द्यदत्तजपदानि भवत्प्रणुन्नः प्राहप्रजा विरचनाय च सादरन्तम् रुद्राभिसृष्टभयदाकृति रुद्रसङ्खसम्पूर्यमाणभुवनत्रयभेदचेदाः मा प्रजासृजतपश्चर मङ्गलायेत्या चष्टदङ्कमलभोर्भव दीरितात्मा तस्याधसर्गरसिकस्य मरीचिरत्रिस्तत्राङ्गिराक्रतुमुनिः पुलः पुलस्त्यः अङ्गादजायदभृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदङ्क्रिता सह धर्माधिकानभिसृजन्नथकर्दमञ्ज वाणीं विधाय विधिरङ्गजसङ्गुलोऽभूत् त्वद्बोधितैः सनकदक्षमुखैस्तनूजैरुद्बोधितश्च विररामतमो विमुञ्चन् वेदां वेदाम्बुराणनिवहानपि सर्वविद्या कुर्वन्नि जाननगणा चतुरानोऽसौ पुत्रेषु तेषु विनिधाय सर्गवृद्धिमप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत जानन्नुपायमधदेहमजो विभज्यस्त्री पुंसभावमभजन्मनुतद्वदूभ्यां ताभ्यां जमानुषकुलानि विवर्धयं स्त्वं गोविन्दमारुद पुरेश निरुन्धिरोगान् ॐ सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द